मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं फैव् देवर्षिवरप्रधानम् श्रीगणेशाय नमः ब्रह्मो वाचा ततोऽधिमदसंयुक्तोऽसुरक्रोधप्रतापवान् दैत्यानाज्ञापय क्रूरान् कर्मणः खण्डनायदान् तैजयादैत्या यहीतले ब्राह्मण स्थाड़मस वर्णाश्रम प्रवर्तका अन्यान वर्णास्तृ्यकर्मी चक्रि देतीर्ताकम दैत्या बभंजुवृक्ष सर्वत्रत्रासिदालोकात् कर्म हीना बभूविरे नः स्वाहा नः स्वधा कुत्र न वषत्कार एव च ततो विप्रानुवाचाधक्रोधात् मदीयनाम संयुक्तं कर्म कुर्वन्तु विप्रभाः जगदीशो महाभागा द्विजान द्विजानसंशयः भजदां पादयोर्मेनो दुर्लभं किं भविष्यति ततो द्विचास्तपोनिष्ठा गतवनेषु मानधौ त्यक्त्वा विषयजं सौख्यं सिंहव्याघ्रयुतेषु ते के जेत् भ्रष्टास्तदाज्ञायां संस्थिता दुःखसंयुताः वर्णाश्रमविहीनाश्च जनाः सर्वे बभूविरे सर्वत्र क्रोधकस्यैव प्रतिमा स्थापिता भवद गृहे गृहे तथा एवं हाहाकृदं सर्वं त्रैलोक्यं तेन वैरिणा देवाः सर्वे भयोद्विघ्ना बभूवु कर्मखण्डनादकर्मखण्डनभावेन पोषणैः संयुधा सुराः तदस्तस्य विनाशार्थं यत्नवन्दो बभूविरे न पुस्तस्य शान्त्यर्थमुपायं ते सुरेश्वराः ततोधिखेदसंयुक्ता बभूवुस्त्रासकम्पिताः यदस्मिन्नन्तरे तत्र वसिष्ठो योगिनां वरः जगादतान् सुरेशानान्निःश्वस्य हितकारकः वसिष्ठ उवाच उत्पत्तिस्थिति संहारैर्वयं युक्ता न संशयः अस्मभ्यो मरणं तस्य न भविष्यदि निश्चितं स्वानन्दवासकरणम् गणेशम् ब्रह्मनायकम् त्रिभिर्हीनं जगर्वेदास्तम् सेवध्वं सुरेश्वराः हत्वा क्रोधासुरंसोऽपि स्वपदानि प्रदास्यति अस्मभ्यं नात्र सन्देहं कुर्वन्तु प्रयदासुराः वसिष्ठवचनं श्रुत्वा हर्षयुक्तासुरर्षयः साधुसाधुमुनिः सर्वे जगुर्ज्ञाननिधिं परं तदस्ते मन्त्रराजं वै जयपुर्लम्बोदरस्य च भक्ति युक्तास्तपोनिष्टाध्यान संस्था बभूविरे नानानुष्ठानयोगैश्चातोषयंस्ते गजाननं उपोषणपरा सर्वे विधियुक्ता महामुनि एवं वर्षसहस्रे च प्रगदे तोषसंयुधः लम्बोदरप्रसन्नात्मा तान् ययौ वरदायकः समागदं गणेशानं दृष्ट्वा देवर्षयः पुरः उद्धाय हर्षसंयुक्दाः प्रणेमोर्दण्डवद्भुवि पुपूजोर्भक्तिसंयुक्दाः प्रभुं नानोपचारकैः पुनः प्रणम्य सन्धुष्टास्तुष्टुभुः करसम्पुटैः देवर्षय ऊचुः नमस्ते गणनादाय लम्बोदरधराय च गजवक्त्राय सर्वेषां नमः पूज्याय ते नमः स्वानन्दपदयेतुभ्यम् सर्वस्वानन्ददायिने अनाथाय च सर्वेषां नायकाय नमो नमः नमो विघ्नेश्वराय इव भक्त्रिविघ्नविनाशिने अभक्तानां कारकाय नमो नमः हीनाय सर्वरूपिणे अनादये परेशाय महोदरनमोऽस्तु नमोस्तुदे मायिनां मोहकायैव मायाविने परात्मने सर्वसिद्धिप्रदायैव नानाविद्या करात्मने अपाराननरूपाय अपारहस्तपदाय च गुणेशाय गुणानां ते चालकाय नमो नमः आदिमध्यान्धरूपायादिमध्यान्तस्वरूपिणे अनाकाराय ते चाकारयुक्ताय नमो नमः ज्येष्ठराजाय ज्येष्ठानां पदये सर्वदायिने आदिभूज्याय चान्देदे संस्थिताय नमो नमः नानाविधं जगत् सर्वं ब्रह्म नानाविधं प्रभो सम्भोदमुदर ते वैतेन लम्बोदरो भवान् तवोदर भव सर्वे त्वं न कस्योदरोद्भवः तेन लम्बोदरोऽसि त्वं लम्बोदर नमोऽस्तु ते त्वं पारं जानासि विघ्नव उदरस्य न पारं जानादिदे दे नमः ये दा दृश्योऽयमानन्दानामानन्दप्रदायकः प्रत्यक्षं दृष्टिगोजादोऽस्माकं धन्या वयं तदः मनोवाणी विहीनो न मनोवाणी मयो न च लम्भोदरः समायाद आश्चर्यम् बाधिते नमः किम्स्तु वीमो गणेशानां यत्र वेदादयः प्रभो शान्तिं प्राप्ता वयं तत्र नः प्रसीद नमो नमः एवमुक्त्वा सुरा सर्वे नृतो मुनयस्तथा तानुवाजगणेशानुमेकगम्भीरनिःस्वनः लम्बोदर उवाच वरम्बूदमहाभाग मुनयो मलाः तपःसा मनः साभीष्टं भक्र्यातुष्ठो ददाम्यहम् भवत्कृतमदीयं यत्स्तोत्रम् सर्वप्रदं भवेद पठते शृण्वते चेहामुत्रसौख्यप्रदं परं यद्यदिच्छति दि तत्तद्वै दास्यामि स्तोत्रपाठतः नानासिद्धिप्रदं चास्तु मम भक्तिविवर्धनं ब्रह्मोवाच लम्बो दरव च श्रुत्वा हृष्टा देवर्षयोऽभवन् जगुस्तं प्रणिपत्यैव सर्वेशं भक्तलकं देवर्षय ऊचुः यदि प्रसन्नभावेन वरदोऽसि गजानन तदा क्रोधासुरं नाथ मारयस्वाधुना प्रभो स्थानभ्रष्टा वयं तेन कृधा कर्म विहीनकाः ऋषयश्च जगत्सर्वं स्वधा स्वाहा विवर्जितम् अदो लम्बोदर स्वामिंस्तवोदरसमुद्भवान् एकं हत्वा तथा सर्वान् रक्षस्वभक्तकान् प्रभो भक्तिं देहि त्वदीयाम्नः सर्वक्रोधविनाशिनीं तया शान्तिसमायुक्ता भजिष्यामो विशेषदः तव भक्तिर्यदा प्राप्ता लम्बोदर तदा शुभं भुनक्ति सर्वदा स्वामिन् ब्रह्मभूतः स वै सर्वं मुनीनां देवानां वचश्रुत्वा महाप्रभुः लम्बोदरश्च तान्प्राह तथेधिभक्तियन्द्रितः ततः सौन्दर्हिदो देवो देवास्तत्रैव संस्थिताः मुनयश्च भयोद्विघ्नकालकाङ्क्षां प्रचक्रिरे ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते देवर्षिवरप्रदानं नाम पञ्चमोऽध्यायः ओम्